श्रीगणेशाय नमः अथ श्री श्रीशिवपुराण श्रीपुराणमाहात्म्यसमोऽध्याय शिवपुराण महत्त्वम् श्रीशौनक उवाच हे हे तु तमः प्राज्ञ सर्वसिद्धान्तवित्प्रभो आख्याये मे कथासारम् पुराणानाम् विशेषतः सदाचारश्च सद्भक्ति विवेको वर्धते कथम् सविकारे निराशश्च सज्जने क्रियते कथम् जीवा च सुरताम् प्राप्ता प्रयो घोरे कलौह्य तस्य संशोधने किम् हि विद्यते परमायणम् यदस्ति वस्तु परमम् क्रियतां श्रिय उत्तमम् पावनम् पावनानाम् च साधनम् सर्वदाधुना येन तत्साधनेनाशु शुध्यत्यात्माविशेषतः शिवप्राप्तिर्भवेतात सदा निर्मलचेतसः सूतोवाच धन्यत्वम् मनुषादूल श्रवण प्रीतिलालतः अतो विचार्य सुधिया वच्मि शास्त्रम् महोत्तमम् सर्वसिद्धान्तनिष्पन्नम् भक्त्याधीकविवर्धनम् शिवतोषकरम् दिव्यम् शृणु वत्स रसायनम् कालव्यालमहात्रा स शैवं पुराणं परमं शिवे शिवेनोक्तम् पुरामने सनत्कुमारस्य मुने उपदेशात् परादरात् व्यासेनोक्तम् तु संक्षेपात्कलिजानाम् हिताय च एतस्मादपरम् किञ्चित् पुराणाश्चैव तोमने भवेत विदेन न मनुक जन्म भवे पुण्यम हजीमत तर प्रीतिर्भव त्र महाभाग्यवतने पुराण परमं शास्त्रोत्तम शिव रूप क्षि जेयम से पठनात् श्रवणादस्य भक्तिमा नरसत्तमः सद्य शिव पदप्राप्तिम् सर्वसाधनात् तस्मात् सर्वप्रयत्नेन काङ्क्षितम् पठनं नृभि तथा च श्रवणम् प्रेम्णा सर्वकामफलप्रदम् पुराण श्रवणात् शम्भो निष्पापो दायते नर भुक्त्वा भोगान् सुविपुलान् शिवलोकम राजसूयन यु्यम अग्निश्योम चत्ण्यं लभते शंभो कथाव ये शुण्व मुले पुराणात्रोम ते मनुष्या न मंतव्याद्रा न संचय शुण्वता कीर्तयतां च पादाम्बूजर्यान्त्येव तीर्थनियमनयो विदुः गन्तुम् निःश्रेयसंस्थानम् येऽभि वाञ्छन्ति देहिनः शैवम् पुराणममलम् भक्त्या शृण्वन्तु ते सदा सदा श्रोतुम् यदशक्तो भवेत् स मुनिसत्तम नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् यदि प्रतिदिनम् श्रोतुम् अशक्तो मानवो भवेत् पुण्यमासादिशु मुने श्रूया शिव पुराणकम् मुहूर्तम् वा तदर्धम् वा तदर्धम् वा च वा ये शृण्वन्ति पुराणम् तन्न तेषाम् दुर्गतिर्भवेत् तत्पुराणम् च शृण्व न पुरुषो यो मुनीश्वर स निस्तरति संसारम् दग्ध्वा कर्म महाटविम् तत् सर्वदानेषु सर्वयज्ञेषु वा मुने चम्भो शम्भो पुराणश्रवणात् तत्फलम् निश्चलब् भवेत् विशेषतः कलोशैव पुराण्डश्रवणाद्रुपे परो धर्मो न पुंसाभिः मुक्तिसाधनकृन्मने पुराणे श्रवणम् शम्भो नाम सङ्कीर्तनम् तथा कल्पद्रुमफलम् सम्यग् मनुषाणाम् न संशय हे कलौ हिताय विदधे शम्भु पुराणाख्यम् सुधारसम् एको जरामरस्याद्वै कबन्धे वामृतम् पुमान् शम्भुकथामृतम् कुर्यात् कुलम्बे वा जरामरम् सुदासेव्या सुदासेव्या सुदासेव्या विशेषतः एतत् शिव पुराणस्य कथा परमपावनी एतत् शिवपुराणस्य कथाश्च वर्णमातृतः किम्ब्रवीमि फलम् तस्य शिवश्चित्तम् समाश्रयेत् चतुर्विंशतिसहस्री ग्रन्थोऽयम् सप्तसंहितः भक्तित्रैक सुसम्पूर्ण विद्येश्वर संहिताभ्या द्वितीया रुद्रसंहिता तृतीया शतरुद्राख्या कोटिरुद्राचतुर्थिका पञ्चमीमासं ती कैलाससंहिता सप्तमी वायवीयाख्या सप्त एवं संहिता ह्य सप्तसंहितम् दिव्यम् पुराणम् शिवसञ्ज्ञकम् वरीवर्ती ब्रह्मतुल्यम् सर्वोपरि गतिप्रदम् एतच्छिव पुराणम् हि सप्तसंहितमादरा परिपूर्णम् पचेद्यत्तु स जीवन्मुक्त उच्यते पुमानज्ञानत तावत् भ्रमतेऽस्मिन् भवे मुने यावत्कर्णागतम् नास्ति पुराणम् चैवमुत्तमम् किं श्रुते बहुभिः चास्त्री पुराणे च भ्रमावहि चैवम् पुराणमेकम् हि मुक्तिदानेन गर्जति एतच्छिवपुराणस्य कथा भगवति यद्गृहे तीर्थभूतम् हि तद्गेहम् वसताम् पापनाशनम् अश्वमेधसहस्राणि वाजपेयशतानि च कलाम् शैव पुराणस्य नार्हन्ति खलु षोडशीम् तावत् स प्रोच्यते पापी पापकृ मुनिसत्तम यावच्छिव पुराणम् हि न सुभक्तितः गङ्गाद्याः पुण्यनद्यश्च सप्तपूर्य तथा एतत् शिवपुराणस्य समताम् याति न क्वचित् नित्यम् शिवपुराणस्य श्लोकम् श्लोकार्धमेव च स्वमुखेन पठेद्भक्त्या यदि चेत् परमाङ्गतिम् एतत् शिवपुराणम् यो वाचेत् अर्थतो निशम् पठयिद्वा प्रीतितो नित्यम् स पुण्यात्मानसंशयः अन्तकाले हि यश्चयनम् शृण्वद्भक्तितश्वरी सुप्रसन्नो महेशानच्छति सम्पदम् एतच्छिवपुराणम् यत् पूजयेत् नित्यमातरात् स भुक्त्व ह अखिलान् कामान् अन्ते शिवपदम् लभेत् एतच्छिवपुराणस्य कुर्वन् नित्यम् अतन्द्रिते पट्टवस्त्रादिना सम्यक् सत्कारम् स सुखी सदा चैवम् पुराणमलम् चैव सर्वसमादरात् सेवनीयम् प्रयत्नेन परत्रेय सुखे सुना चतुर्वर्ग फलम् चैवम् पुराण्लम् परम् श्रोतव्यम् सर्वदा प्रीत्या पठितव्यम् विशेषतः वेदेतिहासशास्त्रेषु परम् श्रेयस्क्रमश्चैवम् पुराणम् विद्येयम् सर्वथा हि ममुक्षुभि सैवम् पुराणमिदमात्मविदाम्बरिष्ठम् सेव्यम् सदा परमवस्तु सदा समर्चयम् तापत्रयाभिशमनम् सुभदम् सुदैव प्राणप्रियम् विधि हरीशमुखायम् राणाम् वन्दे शिव पुराणम् हि सर्वदाहम् प्रसन्नभि शिवप्रसन्नताम् यायत् तद्यात् स्वपदयोरतिम् इति श्रीस्कान्दे महापुराणे शिवपुराणमात्मे सन्धैमवर्णनम् नाम्र प्रमोऽध्याय श्रीगौरी शङ्कराभ्याम् नमः